श्रीहरये नमः अथ द्वाविंशोऽध्यायः श्रीशुक उवाच एवं विप्रकृतो राजन् बलिर्भगवता सुरः भित्यमानोऽभ्यभिन्नात्मा प्रत्याह विक्लवं वचः बलिरुवाच यद्युत्तमश्लोकभवान् ममेरितं वचोव्यलीकं सुरवर्यमन्यते करोमि रुतं तन्न भवेत्प्रलम्बनं पदं तृतीयं गुरुसीष्णिमे निजं बिभेमिनाहं निरयात् पदश्युतो न व्यसनात् दुरत्ययात् नैवार्तकृच्छ्राद् भवतो विनिग्रात् असाधुवादात् प्रसमुद्विजेयत पुंसां श्लाघ्यतमं मन्ये दण्डम् अर्हतमार्पितं यं न माता पिता भ्राता सुहृतश्चातिशन्ति हे त्वं नूनमसुराणां पारोक्षपरमो गुरुः यो नोनेकमदान्तानां विभ्रं चक्षुरादिशत् यस्मिन् वैरानुभन्धेन रूढेन विबुधेतराः बहवो ले बिरे सिद्धिं यामुहैकान्तयोगिनः ते नाकं निगृहीतोऽस्मि भवता भूरिकर्मणा तश्च वारुणपासेनाधिव्रीढेन चव्यते पितामहो मे भवतीयसम्मतः प्रह्लात आविष्कृतसाधुबाधः भवद्विपक्षेण विचित्रवै सम्प्रापितस्त्वत्परमस्वपित्रा किम् आत्मनानेन जगाति यो नन्दत किं रिक्तहारैः स्वजनाख्यधस्युभिः किं जायया संसृतिहेतुभूतयं मर् मर्त्यस्य गेहैः किमिहायुशोव्ययः इत्थं च निश्चित्यपितामहो महान् अगाधभूतो भवतः पादपद्मं जनात् भीतस्वभक्ष श्रपणस्य सत्तमः अतःहम् अभ्यात्मरिभोस्तवान्तिकं दैवेन नीतः प्रसभं त्याजितश्री इदं कृतात्तान्तिकवर्तिजीवितं यया ध्रुवं स्तब्धमधिर्न बुध्यते तस्येतं भाषमाणस्य प्रह्लातो भगवत्प्रियः आजगाम कुरु श्रेष्ठरागापतिरिवोतितः तं इन्द्रसेनस्वपितामहं श्रियाविराजमानं नलिनायते क्षणं प्रांसुं पिशङ्गाम्बरम् अञ्जनद्विषं प्रलम्बबाहुं सुभगं समैक्षत तस्मै बलिर्वारुणपाशयन्त्रत समर्हणं नोपजहारपूर्ववत् न नाम मूर्ध्नाश्रु विलोचलोचन सौव्रीडनीचीनमुको बभूवः ससत्रहासीनमुदीक्ष सत्पतिं सो नन्दनन्द्यात्यनुघैवपासितम् उपेत्य भूमौ शिरसा महामना नना मम त्वयैव दत्तं पदमैन्त्रमूर्जितं हृतं तदेवाद्यतथैव शोभनं मन्ये महानस्य कृतो हि अनुग्रहो तत्को विचष्टे गदिमात्मनो यथा तस्मै नमस्ते जगदीश्वराय वै नारायणाय अखिलोकसाक्षिणे श्रीशुक उवाच तस्यानुशृण्वतो राजन्प्रलादस्य कृधाञ्जलेः हिरण्यगर्भो भगवानुवाच मधुसूदनम् बद्धं वीक्षपतिं साध्वीतत्पत्नीभयविक्वला प्राञ्जलिः प्रणतोपेन्द्रं बभाक्षे वाङ्मुखी नृपा विन्ध्यावळिरुवाच क्रीडार्थम् आत्मनयितं त्रिजगत्कृतं तेस्वाम्यं स्वाम्यं तु तत्र कुधियो परईश आवहन्ति त्यक्तः ब्रह्मोवाच भूतभावन भूतेश देवदेव जगन्मयाञ्चैनं कृत सर्वस्वं नायमर्हति निग्रहम् दत्ता ना भूर्लोका कर्मार्जिताश्च ये निवेदितं च सर्वस्वमात्मा विक्लवया धियां यत्पादयो रसदति सलिलं प्रधाय दूर्वाङ्कुरैररभिविधाय सतीं सपरियाम् अप्युत्तमां गतिमसौ भजते त्रिलोकीन् तास्वान विक्लवमना कथमार्तिं रुचेत् ब्रह्मन्यमनुगृह्णामि तद्विशो विदुनो यहं यन्मधः पुरुषस्तब्धो लोकं मां च अवमन्यते यदा गता चिज्जीवात्मा संसरन्निजकर्मभिः नानायोनिश्वनीसोऽयं पौरुषे गतिमाव्रजेत् जन्मकर्मवयोरूपविद्यैश्वर्यधनादिभिः यद्यश्च न भवेत्स्तम्भत्तत्रायं मदनुग्रहः मानस्तम्बनिमित्तानां जन्मादीनां समन्ततः सर्वश्रेयप्रतीपानां हन्दमुह्येन्द मत्परः एष दानवदैत्यानाम् अग्रणीकीर्तिवर्धनः अजै क्षीधजयां मायां सीधन्नपि न मुह्यति क्षीणरिक्तश्च्युतस्थानान् क्षिप्तो भ्रश्च शत्रुभिः ज्ञादिभिश्च परित्यक्तो यथा न मनुयापितः गुरुणा भत्सितः सत्यं न सुव्रतः चलैरुक्तो मया धर्मो नायं त्यजति सत्यवाक् एष मे प्रापितस्थानं दुष्प्रापं ममरैरपि सावर्णेरन्त्रयस्यायं भवितेन्द्रो माधाश्रयः तावत् सुतलमध्यास्तां विश्वकर्म विनिर्मितं यन्नाधयो व्याघयश्च क्लमस्तन्ध्रापरा भवः नोपसर्गा ष्यन्ति लोकेशाख्यमुता परे त्वश्चासनाति गान्धैत्याञ्चक्रमे सूतयिष्यते रशिष्ये सर्वतोहं त्वां सानुगं सपरिच्छं सा सदा सन्निहितं वीरतत्र द्रक्षते भवान् तत्र ता नवदैत्यान्नां सङ्गाते भाप आसुरः दृष्ट्वा मदनुभावं वै सत्यकुण्ठोऽभिनङ्क्षयति इति श्रीमद्भगवते महापुराणे अष्टमस्कन्धे वामनप्रादुर्भावे बलिवामनसंवादनो नाम द्वाविंशदोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरोनात्मकराजकी जय